तथैकाशीतितमः सर्गः ततो नान्दीमुखीम् रात्रिम् भरतम् सूतमागधाः तुष्टुगुःसविशेषज्ञास्तवैर्मङ्गलसंस्तवैः सुवर्णकोणाभिहतः प्राणद्या मदुन्दुभिः दध्वः शङ्खांश्च भरतम् शोकसन्तप्तम् भूयः शोकैररन्धयत् ततः प्रबुद्धो भरतस्तम् घोषम् सन्निवर्त्य च नाहम् राजेति चोक्त्वा तम् शत्रुघ्नमिदमब्रवीत् पश्य शत्रुघ्नकैकेय्यालोकस्यापकृतम् महत् विसृज्य मयि दुःखानि राजा दशरथो तस्यैषा धर्म राजस्य महात्मनः परिभ्रमति राजश्रीर्नौरिवाकर्णिका जले यो हिनः सुमहान्नाथः सोऽपि प्रव्राजितो वने अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् इत्येवम्भरतम् वीक्ष्य विलपन्तमचेतनम् कृपणारुरुदुः सर्वाः सुस्वरम् योषितस्तदा तथा तस्मिन् विलपति वसिष्ठो राजधर्मवित् सभामिक्ष्वाकुना तस्य प्रविवेशमहायशाः शातकुम्भमयीम् रम्याम् मणिहेमसमाकुलाम् सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत स काञ्चनमयम् ब्राह्मणान् क्षत्रियान् योधानमात्यान् गणवल्लभान् क्षिप्रमानयता व्यग्राःकृत्यमात्ययिकम् हिनः स राजपुत्रम् शत्रुघ्नम् भरतम् च यशस्विनम् युधाजितम् सुमन्त्रम् च ततो हलहला शब्दो महान् समुदपद्यता रथैरश्वैर्गजैश्चापि जनानामुपगच्छता रतो भरतमायान्तम् शतक्रतुमिवामराः प्रत्यनन्दन् प्रकृतयो यथा दशरथम् तथा ह्रद इवति मिनाग संवृतस्तिमितजलो मणि शङ्ख शर्करः दशरथ सुतशोभिता सभा स दशरथे वभूवसा पुरा इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकाशीतितमः सर्गः